हरये नमः अथ तृतीयोऽध्यायः श्रीशुक उवाच सर्यातिर्मनोवा राजा ब्रह्मिष्टः स बभुवः यो वा अङ्गिरसां सत्रे द्वितीयमकवोचिवान् सुकन्या वनगतो ह्यगमत् ह्यगमत् शवनाश्रमं सा की भीः परिव्रतो विचिन्वत्यङ्कृपान् वने ृशे गद्योते इव ज्योतिषे ते दैव चोदिता बाला ज्योतिषी कण्टकेन वै अविद्यन्मुक्तय भावन शुश्रावश्रुक् ततो भक्रुन्मूत्र निरधो भूत् सैनिकानां च तत्क्षणात् राजश्यस्तमुपालक्ष्य पुरुषान् विस्मितो ब्रवीत अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितं ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै दुःखिस्तुस्तत्वश्रुत्वा शर्यातिर्जातसाध्वसः मुनिं प्रसादयामास वल्मीकान्तर्हितं सनैः ततभिप्रायमाज्ञायप्राधा दुहितरं मुनेः कृश्रान्मुक्तस्तमा मन्त्र्यपुरं प्रयात्समाहितः सुकन्याशवनं शवनं प्राप्य पतिं परमकोपनं प्रीणयामास चित्तज्ञा अप्रमत्ता अनोवृत्तिभिः कस्यचित्त्वतकालस्य नासत्यौ आश्रमागतौ तौ मे धत्तमीश्वरौ ग्रहं ग्रहीष्ये सोम स्य यज्ञे वामप्यसोमभोः क्रियतामेवयो रूपं प्रमधानां यदीप्सितम् भाटमित्युचतुर्विप्रमभिनन्द्यभिषत्तमो निमज्जतां भवानस्मिन् हृदे सिद्धविनिर्मिते इत्युक्त्वा जरयाग्रस्तदेहोदमसि सन्ततः ह्रतं प्रवेशितोऽश्विद्भ्यां बलीबलितविप्रियः पुरुषाश्रयबुत्तस्तु अपीच्यावनिता सुवाससहा तान्निरीक्षवरारोहा स्वरूपान् सूर्यवर्चसः अजानती पतिं साध्वी अश्विनौ शरणं ययौ दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ऋषिमामन्त्र्यय यतोर्विमानेन त्रिविष्टपं यक्ष्यमाणोत्तसर्यातिश्च यवनश्याश्रमं गतः दतर्षतु हितोपार्श्वे पुरुषं सूर्यवर्चसं राजा दुखिरं प्राक्कृतपाधाभिवन्दना आशिषश्चा प्रयुज्या नो नातिप्रीतिमना इव चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्बितो लोकनमस्कृतो मुनिः यत्वं जराग्रस्तं असत्यसम्मतं विहाय जारं भजसे मुमध्वं कथं मतिस्ते वगधान्यता सतां कुलप्रसूते कुलदूषणं द्वितं बिभर्षिजारं यदभत्रपाकुलं पितुश्च भर्दुश्च नयस्य दस्तमः एवं ब्रुवाणं पितरं स्मयमानशुश्चिस्मिता उवाच तातजामाता तवै शभृगुरन्धनः सशंसपित्रे तत्सर्वं वयोरुभाभिलम्बनं विस्मितः परमप्रीतस्तनयां परिषस्वजे सोमेन याजयन वीरं ग्रहं सोमस्य च अग्रहीत् असोमपो अभ्यस्विनो शवनश्वेन तेजसा हन्तुं तमादतेव सद्यो मन्यु अमर्षितः स वज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव जानन्स्ततः सर्वे गृहं सोमस्य चास्विनोः विषजापूर्वं सुमाहुत्या बहिष्कृतौ उत्तानबर्हिरानर्तो भूरिशे नयिति त्रयः सर्या ते अभवन् पुत्रा आनर्तात्रे स्थलीम् आस्तितो भुङ्क्तविषयान् अनर्थादीनरिन्दमा तस्य पुत्रशतं जज्ञे खगुद्मी कगुद्मी कगुद्मीरेवतीं कन्यां स्वामाधाय विभुं गतः तन्यावरं परिप्रष्टुं ब्रह्मलोकं अपावृतम् आवर्तमाने गान्धर्वे स्थितो लब्धक्षणक्षणम् तदन्त आद्यमानं यस्वाभिप्रायं व्यवेदयत् तच्छ्रुता भगवान् ब्रह्म प्रहस्य तो वाचः कालेन कृति कृताः तत्पुत्रपौत्रनप्तॄणां गोत्राणि च न शृण्महे कालो बियातस्त्रिणिव चतुर्युगविकल्पितः तद्गच्छ देवदेवांशो बलदेवो महाबलः कन्यारत्नमिदं राजन् नरत्नाय देहि भोः भुवा भारावताराय भगवान् भूतभावनः अवतीर्णो निजांसेन पुण्यश्रवणकीर्तनः इत्यादिष्टोऽन्त्य अजं नृपस्वपुरमागतः त्यक्तं पुण्यजनत्रास्तात् प्रातृभिर्दिष्वस्थितैः सुधां तद्वानवद्याङ्गीं भलाय बलशालिने पधर्याक्यां गतो राजा तप्तुं नारायणाश्रमम् इति श्रीमद्भागवते महापुराणे नवमस्कन्ते तृतीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराज के